श्रीहरये नमः अथ षष्टितमोऽध्यायः श्रीसुख उवाच कर्हि चित्सुखमासीनं स्वतल्पस्तं जगद्गुरुं पतिं पर्यचरद् भैष्मे व्यजनेन सखी जनैः तल्लीलया विश्वं सृजत्य यवतीश्वरः स हि जातस्व सेतूनां तस्मिन् अन्तर्गृहे व्राजन् धाम विलम्भिना विराजिते वितानेन दीपैर्मणिमयैरपि मल्लिकाधाम गोपीश्चन्द्रमसोमलैः पारिजातव नामोदवायुनोद्यानशालिनाधूपै अगुरुजैराजन् जालरन्त्रविनिर्गतैः हें पयः पेन उपस्ते सुखासीनं जगतामीश्वरं पतिं भालव्यजनमाधाय रत्नदण्टं सखीकर तेन विजयति देवीम् उपाशाञ्चक्रगीश्वरं शोपाश्च्युतं क्वणय धीमणिनूपुराभ्यां रेजेङ्गुलीयवलय व्यजनाग्रहस्ता वस्त्रा ूटकुचकुङ्कुमशोणहार भासानि तम्बद्रतया च परार्घ्यकाञ्च तां रूपिणीं श्रियमनन्यगतिं निरीक्ष्य या लीलया धृतनो वक्रोल्लसत् ुधां हरि आभभाषेन् श्रीभगवानुवाच राजपुत्रीप्सिता भूपैर्लोकपालविभूतिभिः महानुभावै श्रीमद्भिः रूपौ धार्यभलोर्जितैः प्तानर्तिनोहित्वा चैद्यातीन् स्मरधुर्मदान् दत्ता भ्रात्रा स्वपित्रा च कस्मात् नो शरणं गतान् बलवद्भिक्रधद्वेषान् प्रायस्त्यक्त नृपासनान् अस्पष्टवर्तमनां पुंसाम् अलोकपधमीयुषाम् आस्तिता पधवीं शुभ्रोर्प्रायसी दन्ति योषितः निष्किञ्चना वयं शश्वन् तस्मान् प्राये श्याढ्यामां भजन्ति सुमध्य ययो आत्मसमं वित् जन्मैश्वर्याकृतिर्भवः तयोर्विवाहो मैत्री च नोत्तमाधमयो क्वचित् वै वृथा वयं गुणैर्ह्य भिक्षु विश्लाघिता मुधा अतात्मनोऽनुरूपं वै भजस्व क्षत्रियर्षभं येन त्वमाशिषः सत्या इहामोत्रच्च लप्स्यसे चैत्यसाल्वजरा सन्तदन्तवक्त्राधयो नृपाः रुक्मि चापि तवाग्रजः तेषां वीर्यमदान्धानां दृप्तानां स्मयनुत्तये आनीतासि मया भद्रे तेजोपहरता सताम् उदासीना वयं नूनं न श्रवत्यार्थकामुकाः आत्मलब्ध्या स्महे पूर्णा गेहयोर्ज्योतिरक्रियाः श्रीसुक उवाच एतावत्तुक्त्वा भगवानात्मानं वल्लभामिव मन्यमानामविश्लेषात् तद्धर्पज्ञ उपारमत् इति त्रिलोकेशपस्तेस्तदात्मनः प्रियस्य देव्यश्रुतपूर्वमप्रियम् आश्रित्य भीता हृतिजातवेपतोश्चिन्तां धुरन्तां रुदती जगामहे पदास्तु जातेन न कारुणश्रियां भुवं लिखन्त्यश्रुभिप्रनासितैः कभयसोकविनष्टबुद्धेर्हस्ताश्लतवलयतो व्यजनं पपात देहश्च विक्लवति यः सहसैव मुह्यन् रम्भेव वायुविकथा हास्य प्रौढिम् अजानन्त्या करुणः सोऽवकम्भथ पर्याङ्गात् अवरुह्यासुताम् उत्थाप्य चतुर्भुजः केषां समुह्य तद्वक्त्रम् प्रामृजत् पद्मपाणिना प्रमृज्याश्रुकले ननन्यविषयां सतीं सान्त्वयामास साध्वज्ञ कृपया कृपणां प्रभुः हास्य प्रौढे भ्रमश्चेत्ता मतदर्कां सतां गतिः श्रीभगवानुवाच मा भावै दर्प्यसूयेता जाने त्वां मत्परायणां त्वद्वच श्रोतुकामेन मुखं च प्रेम ईक्षितुम् कटाक्षेपारुणापाङ्गं सुन्दरब्रहुटीतटम् अयं हि परमो लाभो गृहेषु गृहमेदिनां यन्नर्मैर्मीयते याम प्रियया भीरुभामिनी सैवं भगवता राजन्वै दर्भी परिशान्त्विता ज्ञात्वा तत्परिहसा प्रियत्यागभयं जहो बभाक्षऋषभं पुंसां वीक्षन्ती भगवन्मुखं स्वेडहासरुचिरस्निग्धा पाङ्गेन भारत रुक्मिण्युवाच नन्वेवमेतत्तरभिन्तविलोचनाः यद्वै भवान् भगवतो शत्रुसे विभूम्नः क्व स्वे महिम् नियभिरतो भगवान् स्तर्यधीशः क्व गुणप्रकृतिरज्ञहीतपधा सत्यं भयाति व गुणेभ्य सेते समुद्र उपलम्भ आत्मा नित्यम् गतिन्त्रियगणैकृतविग्रहस्त्वम् त्व सेवकैर्नृपदं विदुतं तमोन्धं त्वत्पादपद्ममहरं दजुषां मुनीनां वर्त्स्म स्फुटं नृपसुभिर्ननुुर्विभाव्यं यस्मात् अनुये भवन्तं निष्किञ्चनो ननु े यस्मै बलिं बलिभुजोऽपि हरन्त्यजाद्याः न त्वा विदन्त्यसुतृप् तो आढ्यतान्धाः पृष्टो भवान् बलिभुजामपि तेऽपितुभ्यम् त्वं वै समस्तपुरुषार्थमयः फलात्मा यत्त्वाञ्चया सुमतयो विसृजन् कृत्स्नं तेषां विभो समुचितो भवतः समाजः पुंस्तस्त्रियाश्चरतयो सुगधोकिनोर्न त्वं्यस्त दण्टमुनिभिर्गतितानुभाव आत्मात्मधश्च जगधामिति मे बृदोसे हित्वा भवद्भ्रुवुत तासि शोब्जभवनाकपतिन्कुतोऽन्ये जाट्यं वसस्तव गदाग्रजयस्तु भूमान् विद्राव्यसार्गनिनदेन जहर्त मां त्वं सिंहो यथा स्वभागम् तेप्यो भयाद्यदुधतिं शरणं प्रपन्नः यद्वाञ्चयान्रपसिकामनयोङ्घवैन्यजायन्तनाहूष गयाधय ऐ गपत्यं राज्यं विसृज्य विविशुर्वनमम्बुजाक्ष सीदन्ति ते नोपतवीं तैः स्थिताखिं कान्यं शयेत तव पादसरोजगन्धम् आग्राय सन्मुखरितं जनतापवर्गं लक्ष्म्यालयं त्वगणैय्य गुणालयस्य मर्त्यासदोरुभयमर्तविवेक्तदृष्टेः त्वं तानुरूपम् अभजम् जगदामधीशम् आत्मानमत्र च परत्र च कामपूरम् श्यान्मेधवाङ्घ्रिररणं श्रुतिभिर्भ्रमन्त्या यो वै बचतम् उपयाति अनृतापवर्गः तस्याश्युरच्युतनृपा तथा मृढविरिञ्च सभासु गीता त्वक् स्मश्रुरोमनकेशपि नद्धमन्तर मां रक्तकृमि विट् कपपित्तवातम् जीवच्छ भम् भजति कान्तमतिर्विमूढ या ते पदाप् चमहरन्दमजिग्रतिस्त्रि अस्त्वम्बुजाक्षममते चरणानुराघ आत्मन्रतस्य मयि च अनितिरेक्तदृष्टेः गर्ह्यस्य वृद्धय उपात्तर ज्योतिमात्रो मामीक्षसे दहुननः परमानुकम्पा नैवालीकमहं मन्ये वचस्ते मधुसूदनः अम्बाया इव हि प्राय कन्याया शात्रतिक्वचेद् व्यूढायाश्चापि पुंश्चल्या मनो अभ्येति नवं नवं भुतो सतीं न बिभ्रूयातां श्रीभगवानुवाच साध्वेतश्रोतुकामैस्त्वं राजपुत्रे प्रलम्भित मयोदितं यतन्वात सर्वं तत्सत्यमेवहीं यान् यान् कामयसे कामान् मय्यकामाय भामिनी सन्ति ह्येकान्तभक्तायास्तव कल्याणि नि नित्यधा उपलब्धं पतिप्रेम पाति प्रत्यं च तेन गे यद्वाक्यैश्चाल्यमानाय नदीर्मय्यपकर्षिता ये मां भजन्ति दाम्भत्ये तपसा व्रतचर्यया मां प्राप्यमानिनि अपवर्गसम्पदं वाञ्छन्ति ये सम्पदये तत्पतिं ते मन्दभाग्यानिरये पिगेन्दृणा मात्रात्मकत्वान्निरयः सुसङ्गमः दिष्ट्या सुतुष्करा सं सुतराम् दुराशिषु ह्यशुम्भराया निक्रुधिञ्जुष स्त्रियाः न त्वादृशीं प्रणयिनीं पश्यामि मानिनीयया स्वविवाहकले प्राप्तान्नृपानवगणैय्यरहो हरो मे प्रस्थापितो युधिनिर्जितस्य भ्रोद्वाहपर्वणि च दुःखं समुत्तमसहोस्मतयोगभीत्या नैवाब्रवी किमपि तेन वयं जितास्ते दूतस्वयात् लभने सुविविविक्तमन्त्रः प्रस्तापितो मयि चिरायति शून्यमेतद् मद्वाजिहासयितमङ्गमनन्ययोग्यं तिष्ठेत तत्त्वयि एवं सौरथसंलापैर्भगवान् जगदीश्वरः स्वरतो रमया रेमे नरलोकं विडम्बयन् तनान्यासामपि बिभुर्गृहेषु गृहवानिव आस्तितो गृहमे दीयान् धर्मान् लोकगुरुर्हरिः इति श्रीमद्भागवते महापुराणे दशमस्कन्ते उत्तरार्ते कृष्णरुक्मिणी संवातो नाम षष्टितमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्दा सद्गुरोनाथमहराज की जै